अथर्वेदे प्रथमाष्टके चतुर्थोऽध्यायः ओम् वाम् मृधुमत्तमः सुतः सोमर्ता वृथा तमश्विना पिबतन्तिरो अञ्जन् धत्तम् रत्मानि दाशुषे त्रिबन्धुरेण त्रिवृता सुपेशसारथेनाया तमश्विना कण्वा सोमाम् ब्रह्म कृण्वन्त्यध्वरे तेषाम् सुशृणुतं हवम् अश्विना वधुमत्तमम् पातम् सोममृता वृथा अथाद्यदस्रावसु समुपगच्छतम् रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञम् कण्वा सोवाम् सुतसोमा अभिद्यवो युवाम् हवन्ते अश्विना याभिः कण्वमभिष्टिभिः प्रावतम् युवमश्विना ताभिश्वा अस्मावतम् शुभस्पति पातम् सोममृता वृदा सुदासेदस्रावसु विभ्रता रथे वृक्षो वहतमश्विना रयिम् समुद्रा दृतवादिवस्पर्यस्मे दत्तम् पुरस्पृहम् यन्ना सत्या यद्वास्थो अधितुर्वशे अतो रथे न सुहदा न आगतम् साकम् सूर्यस्य रश्मिभिः अर्वाञ्चा वाम् सप्तयोध्वरश्रियो वहन्तु स वनेदुपा विशिषम् पृञ्चन्ता सुकृते सुदानवाबर्हि सीदतम् नरा तेन न सत्यागतम् रथेन सूर्यत्वच येन शश्वरोहथुर्दाशुषेवसुमध्वः सोमस्य पीतये उक्थेऽभिरर्वागवसे पुरोवसो अर्कैष्ठनिह्वयामहे शश्वत्कण् सदसि प्रियेहि कम् सोमम् प्रपथुरश्विना सह वामेन न पुषोऽव्युच्छादुहितर्दिवः सहरद्युम्नेन बृहता विभावरि राजा उदीरय प्रतिमा सूनृता उषश्चोदराधो मघोनाम् उवासोषा उच्छार्च्चनुदेवी जीरारथाना ये अस्या आचरणेषु दध्रिरे समुद्रे श्रवस्य वा उषो ये ते प्रयामेषु युञ्जते मनो दानाय सूरजाः अत्राहतत्कण्वेषाम् कण्वतमो नाम गृणाति नृणाम् आघायोषेव सोनर्युषायाति प्रभुञ्जते जरयन्ति वृजनम् पद्वदीयत उत्तायति पक्षिणाः विया सृजति समनम् यार्थिनः पदन्न वयो न किष्ठे भक्तिमांस आसते व्युष्टौ वाजिनीवति एषा युक्तपरावतः सूर्यस्योदयनादधि शतम् रथेभिः सुभगोषा इयम् वियात्यभिमानुषान् विश्वमस्यानामचक्षसे जगज्योतिष्कृणोति सूनरी अपद्वेशो मघोनी दुहिता दिव उषा उच्छतपस्रिधाः उषा आहि भानुना चन्द्रेण दुहितर्दिवः आवहन् देवोर्यस्मभ्यम् सौभगम् युच्छन्तीति विष्टिषु विश्वस्य हि प्राणनम् जीवनन्तेऽपि यदुच्छसि सूनरि सानो रथे न बृहता विभावरिश्रुधिचित्रामघेऽहम् पुषो वाजम्मिमम् स्मयश्चित्रो मानुषे जने तेनावह सुकृतो अध्वराभयेत्वा गृणन्ति वह्नयः विश्वान् देवा आवह सोमपीतयेऽन्तरिक्षा दुशस्तम् सास्मासुधागो मदश्वापदुःख्यामुषो वाचम् सुवीर्यम् यस्यारुषन्तो अर्चयः प्रति भद्रा द्रक्षत सा नो रजिम् विश्ववारम् सुपेशसमुषा ददातु सुव्यम् ये चिद्धित्वा मृषयः पूर्व ऊदये जुहूरेवसेमहि रस्तो मा अभिगृणीहि राधसोषः शुक्रेण शोचिषा उषो यदर्जभानुना संयुम्नेन विश्वतुरोषोमहि संवाजैर्वाजिनीवति कुषो भद्रेभिरागहि दिवश्चिद्रोचनादधि वहन्त्वरुणप्सव उपक्ता सोमिनो गृहम् सुपेशसं सुखम् रथय्य मध्यस्था उषस्त्वम् तेनाशुश्रवसञ्जनम् प्रावाद्य दुहितर्दिवः वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि उषः प्रारन्धृतो दिवो अन्तेभ्यः परि युच्छन्तीरश्निभिर्विश्वमाभासिरोचनम् तान् त्वामुशर्वसूयवो गीर्भिः कण्वा अहूषत उदृत्यञ्जातवेतसम् देवम् वहन्ति केतवाः दृशे सूर्यं सूर्यम् अपत्येतायवो यथा नक्षत्रायम् त्यक्तुभिः सूराय विश्वचक्षसे अदृश्रमस्य केतवो विरश्मयो जनाम् अनु भ्राजन्तो अग्नयो यथा तरणिर्विश्वदर्शतो ज्योतिष्कृतसि सूर्य विश्वमाभासि रोचनम् प्रत्यङ्गदेवानाम् विशः प्रत्यङ्गुदेशिमानुषान् प्रत्यङ्विश्वम् स्वदृशे येनापावकचक्षसाधुरण्यन्तम् च नाम् अनु त्वम् वरुण विद्यामे विद्यामे शिरदस्पृथ्वहाभिमानो अक्तुभिः पश्यञ्जन्मानि सूर्य सप्तत्वा हरितो रथे वहन्ति देवसूर्य शोचिष्केशम् विचक्षण अयुक्तसप्तशुन्ध्युवः सूरो रथस्य नप्त्याः ताभिर्याति स्वयुक्तिभिः देवन्ेव सूर्यानम् अज्योतिरुत्तमम् उद्यन्नमित्रमः आरोहन्नुत्तरान्दिवम् हृद्रोगम् मम सूर्य हरिमाणम् च शुकेषु मे हरिमाणम् रोपणाकासु दध्मसि अथो हारिद्रवेषु मे हरिमाणम् निदध्मसि उदगादयमादित्यो विश्वेन सहसा सह द्विषन्तम् मह्यम् रन्धयन्मो अहम् द्विषते रथम् अभित्यम् वेषम् पुरुहूतमृग््यरीन्द्रम् गीर्भिर्म दतापस्वो अर्णवम् यस्य द्याभो न विचरन्ति मानुषा भुजे मम्मिष्ठमभि विप्रमर्चत अभिमवन्वन्त्वभिष्टिमूतयोन्दरिक्षप्रान्तविषिभिरावृतम् इन्द्रम् दक्षासर्भवो मदच्युतम् शतक्रतुम् यवनी सूनृतारुहत् त्वम् गोत्रमङ्गिरोऽभ्यो वृणोरपोतात्रये शतदुरेषु गातुवित् ससेन चिद्विमदाया वहो वः स्वादाभद्रिम् वावसानस्य नर्तयन् त्वमपामपिधानावृणोरपाधारजः पर्वते दानुमद्वसो व्रत्रयदिन्द्रजवसावधीरहिमादिक्सूर्यन्दिव्यारोहयोदृशे त्वम् मायाभिरपमायिनो रमस्वधाभिर्ये अधिषुप्ता वजुह्वत त्वम् विप्रोर्नृणः प्रारुजः पुरः प्ररुजिष्वानन्दस्यु हत्येश्वापिथा त्वम् कुत्सं सुष्णहत्येष्वाविधारन्धज्योतिथिग्वाजशम्बरम् िदर्बुदम् निक्रमीः पदासना देवदस्यु हत्याय त्वे विश्वा तपिषि सद्भ्यग्ता तपराधः सोमपीठाय हर्षते तपवज्रश्चिकिते बाह्योरहितो वृश्चा शत्रो रवविश्वारिघृष्ण्या निह्यार्यान्ये च दस्य वो बर्हिष्मते रन्ध्रया शास दौरतान् शाकीभव यजमानस्य चोदिता विश्वेत्ताते स धमादेषु चाकन अनूरताय रन्ध्रयन्नपौरता नाभोभिरिन्द्रश्नथयन्ननाभुवः वृद्धस्य विद्वर्धतोऽद्यामिनक्षतस्तवा नो वम्रो विजघानसन्दिहाः तत्क्षद्यत्तरुषना सहसा सहो विरोदसी मज्मना बाधते शवाः आ त्वा वादस्य नृमणो मनो युज आपूर्यमाणमवहन्नभिश्रवाः मन्दिष्टय दुशने काव्ये स चा इन्द्रो ओ वङ्कूङ्कुतराधितिष्ठति उग्रो ययिन्निरपस्रोतसा सृजद्विषुष्णस्य दृम्भिता ऐरयत्पुराः आस्मारथम् वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता इन्द्र यथा सुतसोमेषु चाकनो नर्वाणं हसे दिवि अरदा अर्भा महते वचस्य वे कक्षिव ते मेना भवो वृषणश्वस्य सुक्रतो विश्वेत्ता ते सवनेषु इन्द्रो अश्रायि शुद्ध्यो निरेके पज्रेषु स्तो मो दुर्यो न यूपाः अश्वयुर्गव्यो रथयुर्वसूयुरिन्द्र इद्रायः क्षयति प्रयन्ता इयन्नमो वृषभाय स्वराजे अस्मिन्निन्द्रवृजने सर्ववीरास्मत्सूरिभिस्तव शर्मन्स्याम त्यम् सुमेशम् महया स्वविदम् शरण्यस्य सुभः सा कमीरते अत्यन्न वाजम् हवनस्य दम् रथमेन्द्रम् ववृत्यामवसे सुवृत्तिभिः सर्वतो इन्द्रो यद्वृत्रमवधेन्मतेवृतमुब्जन्नर्णाम् शिजर्घृषाणो अन्धसा स हि द्वरो द्वरिषु वव्र ऊरि चन्द्रबुद्धो मदवृद्धो मनीषिभिः इन्द्रन्तमक्वे स्वपस्ययाधियामम् हिष्ठरातिम् स हि वप्रिरन्धसः आयम् पृणन्ति दिभि सद्मबर्हिषः तम् वृत्रहत्ये अनुतस्थुरुतयः शुष्मा इन्द्रमवाता कृदप्सवः अभिस्वृष्टिम् मदेः अस्य युध्यतो रघ्वेरिव प्रवणे सस्रुरुतयः इन्द्रो यद्वज्रीधृषमाणोऽन्धसाभिनद्वलस्य परिधेङ्घ्रिवत्त्रितः परिङ्घृणाचरति द्विशेषगोपो वृत्ते रजसो बुद्धमाशयत् वृत्रस्य यत्प्रवणे दुर्गृभिश्व जघन्थहन्वोरिन्द्रतन्यतुम् रतन्नहितान्यृषन् योर्मयो ब्रह्माणीन्द्रतपया निवर्धना त्वष्टा चित्ते युज्यम् वावृधेशवस्ततक्षवज्रमभिभूत्योजसन् जघन्वाङ्गुहरिभिः सम्भृतक्रतरिन्द्रवृत्रम् मनुषे गातुयन्नपः अयच्छथा बाह्वोर्वज्रमाय समथारयो दिव्या सूर्यम् दृशे बृहत्स्वश्चन्द्रममवद्यदुःख्या अमकृण्वतभियसारोहणम् दिवः यन्मानुषप्रधना इन्द्रमूतयस्वर्दृशाचो मरुतो मदन्ननु योश्चिदस्यामवाङ्महे स्वनादयो य वीद्भियसा वज्र इन्द्रते वृत्रस्य यद्बद्बधारस्य रोदसीमते सुतस्य शवसाभिनच्छिराः यदिन्विन्द्रपृथिवेदशभुचिरः ततनन्तकृष्टयाः अत्राहते मघवन् विश्रुतम् सहोद्यामनुषवसा बर्हणा भुवत। त्वमस्य पारे रजसोऽ मनस्सभूद्योजा अवसे धृषन् मनः चकृषे भूमिम् प्रतिमानमोजसोपस्वः परिभूरेश्यादिवम् त्वम् भुवः प्रतिमानम् पृथिव्या विश्ववीरस्य बृहतः पतिर्भूः विश्वमाप्रा अन्तरिक्षम् महेत्वा सत्यमद्धा न किरन्यस्मावान् न यस्य द्यावा अनुव्यचो न रजसो अन्तमानशुः नो च मदे अस्य युध्यत एको अन्यच्च कृषे विश्वमानुषक् आर्तन्नत्र मरुतः सस्मिन्नादौ विश्वे देवासोहमदन्नरुत्वा वृत्रस्य यद्भृष्टिमदावधे नदित्वमिन्द्र प्रत्यानम् जघन्था न्यू ओषु वाचम् प्रमहे भरामहे नोद्धिरत्नम् स सतामिवाभिधन्न दुष्णुनिर्द्रविणो तेषु शस्यते दुरो अश्वस्य दुर इन्द्रकोरसि दुरोयवस्य वसु न इनस्पतीः शिक्षानरः प्रतिमोहकामकर्शनः सखा सखिभ्यस्तमिदम् गृणेमसि शचीव इन्द्रपुरुकृद्युमत्तमतवेदितमभितश्चेकिते वसु अतः सङ्गृभ्याभिभूता भरमा त्वायतो जरितुः काममूनजीः एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिङ्गोभिरश्विना इन्द्रेण दस्युन्दरयन्त इन्दुभिर्युतद्रेषसः सभिशारभेमहि सरमिन्द्रराजा समिषारभेमहि संवादेभिः पुरश्चन्द्रैरभिद्युभिः सन्देव्या प्रमत्या वीरसुष्मया गोअग्रजावावत्यारभेमहि ते त्वामदा अमदन्तानिरुष्ण्याते सोमासो वृत्रहत्येषु सत्पते यत्कारवेदशवृत्राण्यप्रतिबर्हिष्मते निसहस्राणि बर्हयाः युधायुधमुपघेदेशिधृष्णया पुरा पुरम् समिदम् हंस्योजसा न्यायदिन्द्रसख्यापरावतिनि बर्हयो नमुचिन्नाममायिनम् त्वमङ्गरञ्जमुत पर्णयम् गेस्ते जिष्ठयातिथिग्वस्य वर्तनी त्वम् शतामङ्ग्रदस्याभिनत्पुरो नानुदः परिषूता ऋजिष्वना त्वमेताञ्जनराज्योद्विर्दशाः बन्धुनाः सुश्रवसोपजग्पुषाः षष्टिम् सहस्राः नवतिन्नवश्रुतो निचक्रेण रथ्याः दुष्पदा वृणक् त्वमाविध सुश्रवसन्तभोतिभिस्तवत्रामभिरिन्द्रतोर्वजामस्मै कुत्समतिथिग्मवायुम् महेराज्ञे यूने अनन्धनायः य उदृचे इन्द्रदेवगोपासखायस्ते शिवतमासा ं सोषामर्तयाः सुबीराद्राह्य आयुः प्रतरन्दधानाः मानो अस्मिन्मघवन्कृत्संहसि न हि ते अन्तः शवसः परिणशे अध्वना कथा न क्षोणेऽर्भियसा समारता अर्चा आशक्रायशाकिले शीवते शृण्वन्तमिन्द्रम् महयन्नभिष्टुहि यो धृष्णुनाशवसारोदसीहे वृषा आ वृषत्वा वृषभो निरुञ्जते अर्चा आदिवे बृहते शूष्या अम्बचस्वक्षत्रञ यस्य धृषतो धृषन्मनाः बृहच्छ्रवा असुरो वर्हा कृतः पुरोहरिभ्याम् मृषभोरथोहिषः त्वम् दिवो बृहतः सानुकोपयो बत्मना धृषता शम्बरम्भिनत् यन्मायिनो वृन्दिनो मन्दिना धृषच्छिताङ्गभस्तिमशनिम् वृतन्यसी नियद्वृणक्षिष्वसरस्य मूर्धनिशुष्मस्य चिद्वृन्दिनो प्राचीने न मनसा पर्णणावताय कद्याचित्कृणवः कस्वापरि त्वमाविधनरुयन्तुर्वशय्यदुन्दवम् तुर्वेतिम् वैयम् शतक्रतोम् रथमेतशङ्कृत्येथनेत्तम् पुरो नवदिन्दम् रयो नवा सखा राजा सत्पतिशोशुवज्जनो रातहौ यः प्रति यश्चा समिन्वति मुक्ता वायो अभि गृणाति राधसादानुरस्मा उपरा पिन्वते दिवः असमम् क्षत्रमसमा मनीषाप्रसोमपा अपसा सन्तु मेमे येत इन्द्रदुषो वर्धयन्तिमहि क्षत्रम् स्थविरम् वृष्ण्यम् तुभ्येदेते बहुरा बहुला मोषदश्च मसा इन्द्रपाना यश्नु हि तर्पया काममेषामथामनो वसुदेयाय कृष्व अपामतिष्ठद्धरुणः क्मदन्तमोऽन्तरवृत्रस्य जठरेषु अभेमिन्द्रो नद्यो ववृणाहिता विश्वानुष्ठाः प्रवणेषु जिघ्रते स नमस्मे महि क्षत्रम् जनाषाणिन्द्रतव्यम् रक्षा च नो सूरेन्द्राये च नः श्चिजलस्य वरिमा विपथ इन्द पृथिवी चरप्रती भीमस्तु विष्मान्तर्षणिभ्य आ तपःशिशीते वज्रन्ते जसेन वंसगः सोऽवो न नद्यः स बुद्धियः प्रतिगृह्णादिविश्रिता वरीमभिः इन्द्रः सोमस्य पीतये वृषायते स नात्स त्वन्मिन्द्रपर्वतम् न भोजसे महो धर्मस्य धर्मणा विरज्यसि विश्वस्मा देवतादिचेकिते विश्वस्मानुग्रहकर्मणे पुरोहितः स विद्वने नमस्युभिर्वजस्यते चारुजनेषु प्रब्रुवाण इन्द्रियम् वृषाच्छन् दुर्भवति हर्यतो वृषाक्षेमे नेनाम् मघवायदिन्वति स इन्महानि समिथानि मर्जनाः कृणोति युध्मोजसा जनेभ्यः अधा चनश्रद्दधति त्रिषीमत इन्द्रायवज्रम् निघनिघनरे बधम् स हिश्रवस्युः सदनानि कृत्रिमाक्ष्मया वृधान ओजसाविनाशयन् ज्योतिर्षि कण्वन्न वृकाणि यज्यवेव सुक्रतुः सर्तवा अपसृजत् दानायमनः यनिष्ठासः सारथयोज इन्द्रते नत्वाकेता आदभ्रुवन्ति पूर्णयः अप्रक्षितम् वसुबिभर्षिरस्तयो रषा कण्ठम् सहस्तम् विश्रुतो दधे आवृतासो बतासो न कर्तृभिः स्तनोषु ते क्रतव दक्षम् महेपाययते हिरण्यजम् प्रथमावृत्या हरियोगमृभसम् तम् कूर्तयो नेमन्निषः परेण सः समुद्रन्न सञ्चरणे सनिश्यवाः पतिम् दक्षस्य विदधस्य नोऽसहो गिरिन्न वेनाधिरोह तेजसा स तु महाङ्गरेणुपुंस्ये गिरेर्भृष्टिर्न भ्राजते तु दाशवाः येन सुष्णम् माजिनमाय सोमदेरुध्र आभूषु रामयन्नितामणि देहीयजितविषयित्वा यो धृष्णुनाशवशा बाधते तम इयर्तेऽनुर्हर्ष्मणीः वियत्तिरोधरुणमच्युतम् रज्योतिष्ठिपो जिवता सुबर्हणा स्वेळेयन्मद इन्द्रहर्ष्याहन्वृत्रन्निरपामौब्जोऽर्णवम् त्वम् दिवो धरुणन्धिष ओजसा पृथिव्या तम् सुतस्य मदे अरिणा अपो विवृत्रस्य समया पाश्या रुजः रमम् हिष्ठाय बृहते बृहद्रये सत्यशुष्माय तपसे मतिम्भरे अपामिव प्रवणे यस्य दुर्धरम् राधो विश्वायुषवसे अपावृतम् अर्हते विश्वमनुहासदिष्टय आपो निम्ने बसवनाहविश्वतः यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रश्नथिता हिरण्ययाः अस्मै भीमायनमसा समध्वर उशो न शुभ्र आभरापनीयसे यस्य धामश्रवसेनामेन्द्रियम् ज्योतिरकारि हरितो नायसे इमेत इन्द्र ते वयम् पुरुष्टुतये न हि त्वदन्यो गिर्वणो गिरः सखत्क्षोणीरिव प्रतिनो हर्यतद्वजाः भूरित इन्द्रवीर्या अन्तवस्मस्य स्तोतुर्मघवन्का ममावृण अनुतेद्योर्बृहति वीर्यम् मम इयञ्जते पृथिवीने म ओजसे त्वम् तमिन्द्रपर्वतम् महामुरुम् वज्रेण वज्रिम् अवाः सृजो निवृताः सत्तवा अपः सत्रा विश्वम् दधिषे केवलंसहा नो चित्सहोजा अमृतो लितुन्दते होता यद्दूतो अभवद्विवस्वतः विषाधिष्ठेभिः पथिभिरजो ममा देवता हविषा विवासति आश्वमद्मयुवमानोऽजरस्रष्वश्यन्नतसेषु तिष्ठति अत्यो न पृष्ठम् ऋषितस्य रोचते दिवो न सानुस्तनयन्नचिक्रदत् प्राणा रुद्रेभिर्वसुभिः पुरोहितो होतारिषत्तोरयिषाळमर्त्यः रथो न विक्ष्वृन्दसा न आयुषुव्याः नुषग्वार्याः देवरुण्ण्वते विवातजूतो हरसेषु तिष्ठते वृथाजुहोभिः सृण्याः तु विश्वणीः न्त मरुषदूर्मे अजर तपूर्जम् भोपन आवातचोदितो यूथेन साह्वाङ् अपवाति वंशगः अभिव्रजम् नक्षितम् पाजसारजस्थातुश्चरथम् भजते पतत्रिणाः दधुष्वाभृगोमानुषेष्वारयिन्न चारु सुभवञ्जनेभ्यः होतारमग्ने अतिथिम् वरेण्यम् मित्रन्न शेवम् दिव्याजजन्मने होतारम् सप्तजुह्वो हो यजिष्ठयम् वाघतो वृणते अध्वरेषु अग्निम् विश्वेषामरतिम् वसूनाम् सपल्यामि प्रयसायामि रत्नम् अच्छिद्रासो नो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ अग्ने गृणन्तमम्हस उरुष्योर्जोनपात्पूर्भिरायसीभिः भवावरोथम् गृणते विभावो भवामघवन्मघवद्भ्यः शर्मा उरुष्याग्ने अम्हसो गृणन्तम् प्रातर्मक्ष्यो धियावसुर्जगम् याद वयायने अन्नयस्ते अन्ये त्वे विश्वे अमृतामादयन्ते वैश्वानरनाभिरशिक्षीणाम् स्थूणे भजनाम् उपरिज्ययन्थ मूर्धा दिवो नाभिरग्निः पृथिव्या अथा भवदरति रोदस्योः तन्तादेवासो जनयन्त देवं वैश्वानरज्यो वीरार्याय आ सूर्ये न रश्मयोध्रुवासो वैश्वानरे दधिरेज्ञावसूनि या पर्वतेष्वोषधीष्वप्सु या राजा रहती इव सूनवेरोदसी गिरोहोता मनुष्यो ओन दक्षाः स्वर्वते सत्यसुष्माय पूर्वैर्वैश्वानराय नृतमाय जह्वीः दिवश्चित्ते बृहतो जातवेदो वैश्वानरप्रजे निमित्तम् राजा कृष्टीनामसि मानुषीणाम् युधा देवेभ्योपदिवश्चकर्थ प्रनो महि त्वम् वृषभस्य वोचय्यम् पूरवोः वृत्रहणम् सजन्ते वैश्वानरोदस्युमग्निर्जघन्वाङ्गसू नो काष्ठा अपशम्बरम्भेत् वैश्वातरो महिन्दा विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा शातवने ये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावा वह्नि यशसं विदधस्य केतुम् सुप्राव्यम् दूतम् सद्यो अर्थं द्विजन्मानम् रयमिव प्रशस्तम् रातिम् भरद्भृगवे मातदिश्वा अस्य शासुरुभया सस्सन्ते हविष्मन्त उषियो ये चमर्ताः दिवश्चित्पूर्वोऽन्यसा दिहो तापृच्छ्यो विश्ववेधाः तन्नव्यसे हृद आदायमानमस्मत्सुकीर्तिर्मधुजिह्मस्याः यमृत्यो वृतरे मानुषा सप्रयः उशिक्पा आवकोपसुर्मानुषेषु वरेण्यो होता आधायि भिक्षो दभो नाग्रहपतिर्दमः अग्निर्भुवद्रयिपती रयीणाम् तदन्ता भयम् पतिमग्नेरयीणाम् प्रशंसामो मतिभिर्गोतमासः आशुन्नवाजम्भरम् वर्जयन्तः प्रातर्मक्षोधियापसर्जगम् यात् अस्मा इदु प्रतसेःतुराय प्रयो न हृन् सोमम् माहिनाय ऋचीषमायाधृगव अहमिन्द्राय ब्रह्माणिराततमा अस्मा इदु प्रज इव प्रजम् शिथराम्याङ्गूषम्बाधेः सुवृत्ते इन्द्राय हृदा मनसा मनीषा प्रत्नाय अस्मा इदुत्यमुपमम् स्पर्शाम्भराम्याङ्गूढमास्येना मम्भिष्ठमच्छोक्तिभिर्मतीनाम् सुभृक्तिभिः सूरिम् वा वृध्यैः अस्मा इदुः सोमं संभिनो विरथन्नतष्टे भवतत्सिनाय गिरश्च गिरुवा सुभक्लेन्द्राय विश्वमिन्द्वम् मेधिराय अस्मायु सप्तमिव श्रवस्येन्द्रायार्कम् जुह्वासमञ्जे वेरन्दानोकसम्बन्धध्यैः पुराङ्गोर्तश्रवसन्दर्माणम् अस्मायुत्त्वष्टा दक्षद्वज्रम् स्वमम् स्वर्या अमृणाय वृत्रस्यचिद्विदध्ये न मर्म तु जन्यैषानस्तु जता कियेथाः अस्येतु मातुः सवनेषु सद्यो महः पितुम् पपिबाञ्चार्वन्नाः मुषायद्विष्णुः पशतम् सहीयः विध्यद्वराहन्तिरो अद्रिमस्ताः अस्मायिदुग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊभुः परिद्यावापृथिवी जभ्रभुवीनास्य ते महिमानम् परिष्टः अस्ये देव प्रलिते महित्वम् दिवः पृथिव्याः पर्यन्तरिक्षात् अस्ये देवशमसा शुषन्तम् विभृश्च वज्रेण वृत्रमिन्द्राः ौ राणामनीरम् चदभिश्रवोदामने सचेताः अस्येतु त्वेषसारन्तसिन्धवः परि यद्वज्रेण सेमयच्छत् ईशानकृतदाशुषे दशस्यन्तुर्वेदजे गाधम् तुर्वणिः कः अस्मा इव प्रभरातु तु जानो भृत्राय वज्रमीशानः गोर्णपर्वविरदातिरश्चेष्यन्नर्णांस्यपाञ्चरथ्यैः अस्येदुप्रब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः युधे यदिष्णान आयुधान्वियघायमाणो नि ऋणातिशत्रून् अस्येदुभियागिरजश्च दृढाद्यावा च भूमा उपो वेनस्य जोगुवान ओणिम् सद्यो भुवद्वीर्याय नो धाः अस्मा इदुत्यदनुदायेषामे को यद्वौने भूरेरीशा नः प्रयितशंसूर्येपस्प्रधानम् सौवश्ये सुविमापदिन्द्राः एवाते हार्योजनासु वृत्तेन्द्रब्रह्माणि गोतमासो अक्रन्न एषु विश्वपेश सन्धियन्धा प्रातर्मक्षो धियावसुर्जगम्यात् इति प्रथमाष्टके चतुर्थोऽध्यायः